अथ ब्रह्मयज्ञः ॐ भूर्भुवः स्वः तत्सवितुर्वरिण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये शय्यो वाक् ॐ प्राणः प्राणः ॐ चक्षुः चक्षुः ॐ श्रोत्रम् श्रोत्रम् ॐ नाभिः ॐ हृदयम् ॐ कण्ठः ॐ शिरः ॐ बाहुभ्याम् यशो भुवः पुनातु नेत्रयुः ॐ स्वः पुनातु कण्ठे ॐ महः पुनातु हृदये ॐ जनः पुनातु नाभ्याम् ॐ तपः पुनातु पादयुः ॐ सत्यम् पुनातु पुनः शिरसि ॐ खम्रम् पुनातु सर्वत्र ॐ भूः ॐ भुवः ॐ स्वः ॐ वहः ॐ जनः ॐ तपः ॐ सत्यम् ॐतञ्च सत्यञ्चाभिद्धात्तपशुध्यजायत ततो राज्यजायत ततः समुद्रोऽर्णवः समुद्रादर्णवादधि संवत्सरो अजायत अहो रात्राणि विदधद् विश्वस्य मिषतो वशी सूर्या यथा पूर्वमकल्पयत् दिवम् च पृथिवीञ्चान्तरिक्षमधुस्वः ॐ देवी देवीरभिष्टय आपो भवन्तु पीतये शय्योरभिस्रवन्तु नः ॐ प्राचीदिगग्निरधिपतिरसितो रक्षितादित्या इषवः तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु योऽस्मान्वेष्टियम् वयम् द्विष्मस्तम्बोजम्भे दद्मः दक्षिणादिगिन्द्रोऽधिपतिस्तिरष्टिराजी रक्षिता पितर इषवः तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु योऽस्वान्वेष्टियम् वयम् द्विष्मस्तम् वोजम्भे दद्मः प्रतीजीदिग्वरुणोऽधिपतिः प्रदाकू रक्षितान्नमिषवः तेभ्यो नमोधिपतिभ्यो नमो, नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु योऽस्वान्वेष्टि यम् वयम् द्विष्मस्तम्भोजम्भे दद्मः उदीची दिक्सो मोधिपतिः स्वजो रक्षिता शनि तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु योऽस्मान्वेष्टियम् वयम् द्विष्मस्तम्बोजम्भे दद्मः ध्रुवादिग्विष्णुरधिपतिः कल्माशग्रीवो रक्षितावीरुध इषवः तेभ्यो नमोऽधिपतिभ्यो नमो, नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु योऽस्मान्द्विष्टियम् वयम् द्विष्मस्तम्बुजम्भे दद्मः ऊर्ध्वा दिग्बृहस्पतिरधिपतिः श्वित्रो रक्षिता वर्षमिषवः तेभ्यो नमोऽधिपतिभ्यो नमो, नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु योऽस्वान्द्वेष्टियं वयम् द्विश्वस्तम्भोजम् भे दद्मः ॐ उद्वयम् तमसः देवं स्वः पश्यन्त उत्तरम् देवम् देवत्रासूर्यमगन्मज्ज्योतिरुत्तमम् उदुत्यम् जातवेदसम् देवम् वहन्ति केतवः वह। ऋषे विश्वाय सूर्यम् चित्रम् देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्निः आप्राद्या वा पृथिवी अन्तरिक्षम् सूर्य आत्मा जगतस्तत्सुषश्च स्वाहा तच्चक्षुर्देवहितम् पुरस्ताच्छुक्रमुच्चरत् पश्येम शरदः शतम् शृणुयाम शरदः शतम् प्रभ्रवाम शरदः शतमदीनाः स्याम शरदः शतम् भूयश्च शरदः शता ॐ भूर्भुवः स्वः तत्सविसुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् हे ईश्वर दयानिधे भवत्कृपयानी न जपोपासनादिकर्मणा धर्मार्थकाममोक्षाणां सद्यः सिद्धिर्भविन्नः ॐ नमः शंभवाय च मयो भवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॐ शान्तिः शः शान्ति शः शान्ति